श्रीमद्भागवत् महापुराणं महात्म्यं चतुर्थोऽध्यायः सप्ताहं यज्ञवद् यत्तु सस्रमं सत्वरं मुदा सेवितं राजसं तत्तु बहुपूजादिशोभनं मासेन ऋतना वापि श्रवणं स्वादिसंयुतम् सात्विकं यद् नायासं समस्तानन्दवर्धनं तामसं यत्तु वर्षेण शालसं श्रद्धयायुतं विस्मृते स्मृतिसंयुक्तं सेवनं तच्च सौख्यदं वर्षमासदिनानां तु विमुच्य नियमाग्रहं सर्वदा प्रेमभक्त्वैव सेवनं निर्गुणं मतम् परीक्षितेऽपि संवादे निर्गुणं तत्प्रकीर्तितं तत्र सप्तदिनाख्यानं तदायुर्दिनसङ्ख्ययाम् अन्यत्र त्रिगुणं चापि निर्गुणं च यथेक्षयां यथा कथञ्चित् कर्तव्यं सेवनं भगवत् श्रुतेः ये श्रीकृष्णविहारैकभजनास्वादलोलुपाः मुक्तावपि निराकांष्ठाल् तेषां भागवतं धनं येऽपि संसारसन्तापनिर्विण्णा मोक्षकाङ्क्षिणः तेषां भवौषधं चेतन् कलौ सेव्यं प्रयत्नतः ये चापि विशया रामाः संसारिकसुखस्पृहा तेषां तु कर्ममार्गेण या सिद्धि साधुना कलौ भावा सामर्थ्यधनविज्ञानाभावादन्त्यन्तदुर्लभा तस्मात्तैरपि संसेव्या श्रीमद्भागवतीकथा धनं पुत्रास्तथा दारान् वाहनादि यशोगृहान् असापत्न्यं च राज्यं च दद्याद्भागवतीकथा इह लोके वरान् भुक्त्वा भोगान् वै मनसेप्सितान् श्रीभागवतसङ्गेन यात्यन्ते श्रीहरे पदं यत्र भागवती वार्ता ये ततश्रवणे रता तेषां संसेवनं कुर्याद्देहेन च धनेन च तदनुग्रहतोस्यापि श्रीभागवतसेवनं श्रीकृष्णव्यतिरिक्तं यत्तत् सर्वं कृष्णार्थीति धनार्थीति श्रोता भक्ताद्विधा मतः यथा भक्ता तथा श्रोता तत्र सौख्यं विवर्धते उभयोर्ैर्म्बपरित्ये तुरसाभासे फलच्युतिः किन्तु कृष्णार्थिनां सिद्धिर्विलम्बेनापि जायते धनार्थिनस्तु संसिद्धिर्विसि सम्पूर्णतावशात् कृष्णार्थिनो गुणस्यापि प्रेमैव विधिरुत्तमः आसमाप्तेः सकामेन कर्तव्यो हि विधि स्वयं स्नातो नित्यक्रियां कृत्वा प्रास्यपादोदकं हरे पुस्तकं च गुरुं चैव पूजयत्योपचारतः बृजाद्वा शून्याद्वापि पयसा वा हविष्येण भोजनमाचरेत। भोजनमाचरेत् ब्रह्मचर्यम् अधसुप्तिं क्रोधलोभादिवर्जनं कथांते कीर्तनं नित्यं समाप्तौ जागरं चरेत। ब्राह्मणान् भोजयित्वा तु दक्षिणाभिप्रतोषयेत् दुर्वे वस्त्रभूषादि दत्त्वा गां च एवं कृते विधाने तु लभते वाञ्छितं फलम् दारागारसुतान् राज्यं धनादि च यदीप्सितं परन्तु शोभते नात्र सकामत्वं विडम्बनम् कृष्णप्राप्तेकरं शश्वत्प्रेमानन्दफलप्रदम् श्रीमद्भागवतं शास्त्रं कलौकीरेण भाषितम् इति श्रीस्कान्दे महापुराण एकाशीतिसहस्रायां सहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवत्महात्म्ये भागवतशोतृभक्तृलक्षणश्रवणविधि निरूपणं नाम चतुर्थोऽध्यायः समाप्तमिदं श्रीमद्भागवतमहात्म्यं हरिः ओं तस्य हरिः ओं तस्यत् A-rihe o o um mis <laughs> morally